नारायणीयं दशकं ट्वेण्टि मीटर् उपजाति प्रियव्रतस्य प्रियपुत्रभूदाग्निध्रराजा दुदिदोहिनाभिः त्वां दृष्टवानिष्टदमिष्ठिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञस्वतुल्यं सुतमर्भ्यमानः स्वयं जनिष्येतमिति yeah. ब्रुवाणस्तिरो दधा बर्हिषि विश्वमूर्ते नाभिप्रियाया मधमेरुदेव्यां त्वमं शदो अलोकसामान्यगुणप्रभावप्रभाविदाशेषजनप्रमोदः त्वयि त्रिलोकीभृदिराज्यभारं निधायनाभिस्सह मेरुदेव्या तपोवनं प्राप्य भवन्निषेवी गदखिलानन्दपदं पदं ते इन्द्रस्त्वदुत्कर्ष कृतादमर्षाद्वर्ष नास्मिन्न जनाभवर्षे यदा तदा त्वं निजयोगशक्रियास्ववर्ष मेनद्व्यदधासु वर्षम् जितेन्द्रदत्तां कमनीं जयन्ती मधोद्वखन्नात्मरदाशयोऽपि अजीजनस्तत्र शतं तनूजानेषां क्षितीशो भरतोऽग्रजन्मा न वा भवन् योगि वरा नवान्ये त्वपालयन् भारतवर्षखण्डान् सैकात्वशीतिस्तव शेषपुत्रास्तभो बलाद्भूसुरभूयमीयुः उक्त्वा सुतेभ्योऽधमुनीन्द्रमध्ये विरक्तिभक्ति अन्वितमुक्तिमार्गं स्वयं गतः पारमहंस्य वृत्तिमधा जडोन्मत्तपिशाचर्याम् परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमानः विकारहीनो विचचार कृत्स्ना मही महीनात्मरसाभिलीनः शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्यपरं स्वरूपं दवा हृदाङ्गकुटकाचले त्वं तापान् ममा पा गुरुवादनाथ